योगै पवमानानामन्वारोह विद्वान् यजते न पवमानारोहति न पवमानेभ्यो वच्छञ्जते शेनासि गानप्रसन्द अनुत्वारभे षष्टि मा संवादय सुवर्णोऽसि दृष्टुच्छन्दा अनुत्वारभे षष्ठि मा सम्पादय सखासि जगति अनुत्वारभे सखास स्वस्ति मा संवादयेत्या हे देवै पवमानानामन्वारोहास्तानि रोहध न ैतेोणकरः पो दत्तानेन गृहे त्वजापमानं विच्छिन्दा त्वं विच्छिद्यमानमथर्योः प्राणो न विच्छिद्यतोपजाम गृहेतो प्रजापद त्वेति द्रोणकलशमभिरुषेदिन्द्रायत्वेत्याधवनेदम् विश्वेभ्यस्त्वा देवेभ्यजिति बोधभृतम् पपमानमेव तत्सन्तनोति सर्वमायुरेति न पुरायुषः प्रमेलेन सुमान् भवति विन्दतेः प्रजा न्यथ तृजीतगुंसवनमवनं कुर्वन्तं सुपात्रे त्रिजेगसवने विसृज्याभिषण्याजगिरेणां सुमद्यदभिषणो सर्वाण्येव तत्सवनान्यगुं सुमन्दि शुक्रवन्ति समावन्तेर्यकरौ समुद्रौ विततावजोर्यौ वल्यावर्त्यते पादाः पश्यन्तो अधिगन् जन्यमपश्यन्तस्य तु नातिगन् जन्यम् द्वेन्द्रधसे सतदेव स्थले कः केशे विश्वाभुवनानि विद्वान् तिरोधारेत्यसितम् वसार शुक्रमादत्ते अनुभायजाल्यै देवा वै यज्जज्ञे कुर्वत तदसुरा अकुर्वत ते देवाजे महायज्ञमपश्यन्तमतन्वताग्निहोत्रं व्रतम कुर्वत तस्माद्विव्रतस्याग्ने सोमेजं भसुमगुर्वदधार्षि यज्ञमाग्नेजं भसुमगुर्वदैश्वं वादस्य जिगागुम् सन्तन्नान्ववागन्ते ब्रुवन्मध्वर्तव्यवायुमे देव अभो वन्यजिगदध्वरस्यान्वरा सुराय एवम् विद्वान् सोमे नगज देभवत्यात्मना भवास्यभ्याजुर्विजो भवति परिभोरग्निम् परिभोरिन्द्रम् परिभोर्विश्वाहान् देवान् परिभोर्मागुम् सहम् ब्रह्मवर्जसेन सनः पव स्वशङ्गवेशञ्जनाय समर्वदेशगुम् राजन्माधेभ्योऽच्छन्नस्य देवजपदे सुवीर्यस्य राजस्पोषस्य च दितारस्याम तस्य मेलास्वदस्य ते भक्षीयतस्य च इदमुम् मृजे प्राणायमेवच्चोदावर्चसेपवस्वापानाय यानाय वाचे नक्षक्रतुभ्यां चक्षुभ्यां मेवच्चोदो वर्चसे पेथा विश्रोत्रायात्मनेऽङ्गेभ्य आयुषे भीर्यायकृष्णोरिन्द्रस्वीश्वेषां देवानाहाच्चोदामेवर्चसेपवस्वतो शिवो नामकस्मैः त्वागाय त्वागन्पासो मे नामि मदम् सुप्रजा सजा भोजासगम् सुवीरो वीरैः सुवर्चावर्चसार्विश्वेभ्यो मे रूपेभ्यो वर्चोदावर्चसे पवस्व तस्य मे रास्वतस्य ते भक्ति यतस्य त इदमुम् वृजे दुःखोषण्णवेः क्षयतैष वै पात्रियः प्रजापदनुजज्ञः प्रजापतिस्तमेप्तो भूत्याभिभवद् ब्रह्मवर्जस कामो वेहे क्षयतैष वै स्त्रियः ja चक्रतुर्भ्याम् चक्षुर्भ्य विश्रात्राभ्यामात्मनोङ्गेभ्यः आयुषाम् दरेति ताजक्रथम् वदे छ स्वस्तिर्विघनः स्वस्तिः पर शुर्वेदिः परशुर्नः स्वस्तिः यज्ञरायज्ञकृतस्थते मास्मिन् यज्ञ उपह्वेश्वरुपदेवा उपयज्ञ उपमाहोत्रा उपहवेयन्तान्नमोऽग्नरे मखग्ने मखस्य मार्सोर्यादित्याहवीरमुपतिष्ठते यज्ञो वै मखो यज्ञं तेनमो रुद्राजमखघ्ने नमस्कृत्य मा बाहेत्याग्नेः सदः प्रसर्पत्यात्मनो नाह तेन वेर्यं मानलवधेरिहोत्रे यमाशिष मे स्यार्तिमार्छदिनमोग्नेवनजित्या हैता सरस्यार्तिमार्पयिताय एव समे चे मागुं हसस्पादगुं सोरुजो मा देवो दुर्जालं हस स्वादुवायुरं दरिष्वादग् पृथिव्याजमः सरस्वेवे ृथिव्याहेदैतस्तिष्ठान्योस्मद्वागतरवदश्च केशं पातं वा प्रसर्पन्दं वितरानु प्रसर्पन्द जय नमेश्वराहिंसितोस्ततः त्याक्षणाघ्यम्बरेः क्षेतागन्धमितलः पितृमानहैयुष्माभि भोजाच प्रजसो मया योजम् भोजास्ते दितेभ्य ले भक्षे हिमाविसदेर्ध्यायत्वाय सन्तमत्वाय राजस्पोषायत्तसे प्रदास्त्वाये हिमसो पुरो वसो पुरुहृदोश्विनोः स्वाबाहो चक्षसं द्वाजय सोम सुचक्ष अवक्षेशं मन्द्राज्ञानाम्बाज्युषाणा सोमस्य तृत्यतु मन्द्रा सर्वास्यति चिरणाहतशेर्ष्णे वाग्ुषाणासौ स्य दृभ्यत्वे हि विश्वदर्षणे शम्भोर्मयोस्ति माहरिवर्म प्रचर कृत्वेदता दे मामाराजन्मेहामा जादुषे वर्चसे गणस्य सोमदेव जगति छन्दस इन्द्रवेदस्य नंसपेदस्य मधुमधमुपहोदस्यो बहोदो भक्षयामि आद्याजस्व समे तु ते विश्वनः सो महिष्णुयम् भवायस्य सङ्गते हिन्वमे गात्रा हरिवो गणान्मे मामिति शिवो मे सप्तर्षेणपतिष्ठस्व मामे वातिगाः मम मृता अभो मादस्मज्योतिरविरामदेवान् गृहवदरादिः किमुर्जस्य यन्म आत्मना विन्दाभूदग्निस्तत्पुनराहालवेदा वितर्भणिः पुनरग्निश्चक्षुरवात् पुनरिन्दो बृहस्पतिः पुनर्मे अश्विना जन्धक्षुराधत्तमक्षोः इष्टविजुषस्ते देवसोमस्तुत स्तोमस्य शस्तोच्छस्य हरिवदविन्द्रवीरस्य मधुमदमुपहोदस्योपहोदो भक्षयामि आपोर्यास्थामापोरयत प्रजया सनेन च एदत्ते तदे चत्वा मन् वेदत्ते पितामहप्रपितामहे चत्वामन्वत्रमितरो जसाभागं मन्दध्वन्नमो बः पितरो रसाय नमो बः पितल जनमो वः पितरो जीवायनमो वः पितलस्वधा जी नमो नमो बः पितरो पितरो नमो भो जये तस्मिन् लोकेश्च लक्ष्माविस्तेजेऽस्मिन् लोके धिष्ठाभूयास्तोकेऽहम् वधिष्ठो भूयासम् भुजापदेतान्यो विश्वा जातानि वलिता बभूव यत्कामास्ते ल्युहुमस्तन्नो अस्तु वयज्ञस्यामपदरोगिणा देवकृतस्येन सौ भजतनश्चतस्येन सौ भजद नमधि तस्य सौ भज नमस्यप्सुधौ तस्य सोमदेव तेन सुजुषस्तुतस्तोमस्य शस्तोक्षस्यो भक्षो हीनाम् पजोऽसि विश्वेषाम् देवानाम् तनोज्यासमध्याहतेनाङ्ग्रहम् मृहतेनाङ्ग्रहोऽसि विष्णोजहृदयमस्ये कविष विष्णोस्तारष्टस्य वेदस्य द्रविणमागम्याच्योदसेश्वातलम् स्नि दुग्धम् यावधेद्यावापृथिवी महित्वा यावच्च सप्तसन्धमो वितस्थुः तावन्तमिन्द्रभे गृहगंसहार्जाग्रह्माण्यसृतम् यत्कृष्णश गुणःपृषदा जमव मृषेच्छोद्यस्य प्रमायकाश्चर्यवापमृषे चतुष्पादास्य वशवः प्रमायकाश्चे यो वैपृहदा जं वशवो वारेदस्य स्कन्दं तिगस्य पृहदा जज्ञस्कन्द तिगत्पृषदा जं पुनर्गृह्णादि पशोनेवास्मे पुनर्गृह्णादि प्राणो वैपृहदा ज्यं प्राणो वारेदस्य स्कन्ददिगस्याहदा्यग्स्कन्ददिगत्प्रहदाज्यं पुनर्ग्रन्धादि प्राणमेवस्मै पुनर्गृह्णादि हिरण्यमवधाय गृह्धाद्यं प्राणःप्रहदाज्यमृतमेवस्य प्राणे दधाति शतमानं भवति शताशुष्येवेन्द्रिते प्राजा पत्यो वा अश्वः प्राजापत्यः प्राणम् निर्मिमेते विवादे तस्य लश्च ज्ञस्य प्रहदाद्य स्कन्धति हैर्जा पुनर्गृह्णादि यज्ञो वै विष्णुर्यज्ञेनैव यज्ञकम् सन्तनोति देव समित एतत्ते प्राहतप्रच सुभप्रचय बृहस्पतिर्ब्रह्मायुष्मत्यामागादतोपात्साम्नः सत्याव आशिषः सन्धु सत्याः गोदय रतञ्च सत्यं च पदत स्तुतदेवस्य समितुः प्रसवे स्तुतस्य स्तुतमस्योर्जं मह्यग् स्तुतं दुहामाः स्तुतस्य स्तुतङ्गं याच्छस्त्रस्य शस्त्रमस्योर्जं मह्यगो शस्त्रं दुहा माम शस्त्रस्य शस्त्रङ्गम् न्तो मनामहे तु क्षेमहि प्रजामिषम् सा मे सत्याशीयद्देवेषु भूयाद् ब्रह्मवर्चसंवागम् यात् यज्ञो बभूवसः आबभूवसवृजज्ञे समावृथे स यज्ञावा वैरज्ञपदिं दुहैरज्ञपदर्वरज्ञं दुहे स यस्तुतशस्त्रजोर्दोहनविद्वान यदज्ञो दुहे सहिष्वाभावेदान् भवति यदेन जोर्दोऽहं विद्वान् यजते स यज्ञं दुहे स गृष्वावसेदान् भवति स्तुतस्य स्तुतमस्योर्जम्मह्यज्ञस्तुतं दुहा मामाहास्तुतस्य स्तुतं गम्याच्छस्त्रस्य शस्त्रमस्योर्जम्मह्यगो शस्त्रं दुहा मामा शस्त्रस्य शस्त्रङ्गम् ध्यादित्या हैषवे स्तु दशस्त्रोर्दहस्तङ्गम् श्येनाय पत्मने स्वाहावत् स्वयमभिगो त्रा जनमाविष्टम्भाय धर्मणे स्वाहावत् स्वयमभिगो त्वा जनमः परिथय जनप्रथनाय स्वाहावत् स्वयमभिगो चूर्देहोत्राणाविस्वाहावत् स्वयमभिगो त्वा जनमः पयसेहोत्राणाविस्वाहावत् स्त्रम् पन्तापदिष जगेन साहुः प्रयानुद्भक्तानुप्यमानामथौजौ स्तोकामपतौरराधा सन्नस्ताभ्यागम् सृजतु विश्वकर्माघोरार्षजो नमो हस्तेभ्यः चक्षुषदेशाम् मनसस्य सम्भोभ्य हस्मदजय महिषद्युमन्नमः नमा विश्वकर्मणे समुपा त्वस्मानम्यान् सपान् मन्यमानः प्राणस्य विद्वान् समलेन धेरजेनश्च गृवान्महि बद्धरेषाम् तम् विश्वकर्मन् प्रमञ्च स्वस्य ये जे भक्षयन्तो यनसो यानग्नजोन्मदत्यन्तधिष्ठिया यजन्तेषामवजादृष्ट्ये सृष्टिन् हस्ताम् कृणोदु विश्वकर्मा नमः पिदुर्भ्यो अभिनेनो अक्षनयज्ञकृतो यज्ञकामासुदेवा अकामा वो दक्षिणान्नने ममानस्तस्नादेन सः पापयिष्टा यावन्धो वे सदस्यास्ते सर्वे दक्षिण्यास्तेभ्यो यो दक्षिणान्ननदेभ्यो वृष्टेधयद्वैः स्वब्रह्मणान् जुहोति सदस्या नारेणाद्यस्मे देव सोपुषे चिकित्स तजमासिरा दम्पती वा मम स्मृतः पुमाहान् पुत्रो जायते विन्ददेव स्वध विश्वे अरपादेधते विहः आशेर्दारादम्पदेवा मम श्नुकामरुष्टो राजस्य च तागम् समाकसा चत्सन्दग्धम् गुम्भा सहेष्टेन यामन्नवतिम् जादृशः सर्गर्गेवेपे वर्यस्य जाया देवानः पुत्रा अग्रसा सानस्य मान इन्द्राशिरघुम् सह गुण् आशेर्मगोर्जमदसप्रजास्तमिषम् दधा दुद्रविनगुम् समर्चसम् सञ्चयङ्क्षे ग्राणि अधरान् सपद्मान् धामुखमसि मुखम् भोजा सन्ध्यावापि शिवे गृह्णामि विस्मे त्वा देवा वेश्वानलाप्रत्यापयन्तु दिविदेवान्धानं वान्धवन्धवेणह सोमन् नयामसि ध्यान सर्वमित्यगतं सुमनासत् यथा नयम् लयद्विषः केवले सर्वाः समनसः यथा न सर्वा निद्विषोऽस्माकम् जा केवले यद्वेहोदाध्वर्यमभ्याह्वयते वज्रमेण महि प्रवर्तयत्युक्सहायत्याहप्रादस्सवनं पृथगैर्यत्रेण्येदान्यक्षराणि त्रिपदा गायत्रे गायत्रं प्रातः सवनं गायत्र्यैव प्रातः वने वज्रमं दद्धमुक्थं वाचेत्याहमाद्यंसवनं पृथगेर्यचत्वारेदान्यक्षराणि चतुष्पदात्रष्टुक्त्रेष्टुब्रह्मात् ैव्यक्षराणि सप्तैशाज्रमं दर्धत्ते ब्रह्मवादिना वदन्ति प्रतिगरे क्षराणि त्रिपदा गायत्री गायत्रं प्रातस्य प्रतिगरे गायत्री तेजः प्रातस्य वनं तेजदेव प्रातस्य वन आत्मं धत्र चत्वार्यक्षरानि चतुष्परात्रष्पत्रैष्टुभं माध्यन्दिनगुंसवनं माध्यं दिन एव छन्दागं सि सम्पादयत्य छान्द्रियं वये तिष्ठिन्द्रियं माध्यं दिनगं सवनमिन्द्रियमेव माध्यं दिने सवन आत्मं धत्तमुक्थं वाचेन्द्रादेत्याहलतिरसवनं प्रतिगेरिज सप्तैकान्यक्षगान सप्तपदा शक्वलेशाः पशवो जागतं त्रीलं तृतीयन एव प्रतिगले छन्दागं सम्पादयत्य स पशवो जगते ृतेन समनं वशो नैवतेन समन आत्मम् सत्तेन द्वे होताध्वर्यमभ्यापयनः ृच्छते तादृगेव तद्यदर्चालोप्येत यथादृगेव तत्प्रवाहुवारित्विजा उद्गीत देवोद्यागणामिदः प्रणवमुत्सुंसिनाः प्रतिघरोणाङ्गं विद्वान् प्रजगणात्यन्नादेव भवत्या प्रजायासेन सत्यस्या एव तद्भोतानेत्यास्तमहिरमथ इमामेव तेन प्रजगणाद्य ्यसावथो मेदासे न शगुं सति तस्मादितः प्रदानं देवा उपजीवं दियत्तिष्ठन् प्रतिगणादि तस्मादमुतः प्रदानं मनुष्या उपजीवं दियत्राकाशे नश्यगुं सति प्रत्यन् तिष्ठन् प्रतिगणादि तस्मात् प्राचीनकुं रेतो द्वैहोताह्व प्रवर्तयति वरा वर्तते वज्रमेव तन्निकरोति उभयामगृहीतोऽसि वाक्षसनसि वाक्वाभ्या वा क्रधुपाभ्यामस्य यज्ञस्य अभ्युवस्याध्यक्षाभ्याम् ग्रन्था गृहीतोऽसदसि चक्षुष्पाभ्यां त्वा क्रदुवाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णाम्युपदामगृहीतोऽिश्रुतसद शिष्योधमाभ्यां त्वा क्रदुराभ्यामस्य लग्नस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि देवेभ्यस्त्वा विश्वदेवेभ्यस्त्वा विश्वेवेद्भ्यस्त्वा देवेभ्यो विष्णगुरुक्रमैष देशोमस्त स्वतं देजश्च क्षामा वक्षन्म हिवसः पुरो वसर्वाग् वाचं मे पाहि महिवसर्वसश्चक्षुष्माश्चक्षुर्मे ेदे सुभस्पति इदमहन्तमधरम् वाजयामि यथेम् राहमुत्तमश्चेतयामि सो अग्ने तमोदिभिः सुवीराभिः दिवाचकर्मभिः यत सत्त्वकम् सख्यमामिथ प्रहोत्रे गोर्व्यम् वचोन्यदे फलता बृहत् विपाञ्जोदेगंशिबिभ्रले न अरमे त्रिदेवादिना त्रेषातिः स्रस्ते जिह्वारितजातपूर्वेः समुदे तनुवो देववातास्ताभिर्नः माहि गिरो अप्रयुच्छन् तम्भाम् कर्मणा समिषा हि नोमेन्द्रा विष्णो अपसस्पाने अस्य विषेधाः यज्ञम् द्रविणम् च धत्तमरिष्टयन्नः उभाजिव्यसद् न परा जयेथेन परादिव्यैकतरश्च नयनोः इन्द्रश्च विष्णो य तपःस्रेथा सहस्रम् यतैरजेथाम् अग्ने ताभिर्देवानामवो दक्ष विद्वानथा भयजमाना रशल्योः आग्नेस्त्रेण त्रिधातोऽन्याक्षे रेकादशाम् इहा दक्षच्चपि प्रयच्छनो विप्रो दोतः परिष्कृतः नभन्ता मन्यके समे इन्द्राविष्णो लुगुम्भिराः शम्बरस्य नवपुरोनवतिम् चष्टम् शतम् वचिनः सहस्रम् च साकम् हस अप्रत्यसुरस्य मातामहिषमन्दभेन दवेद्वाजहरिमप्रदेवाः वे द्वित्रमिन्दो हश्यन् सखे विष्णो यानम् विक्रमस्व